अथ त्रयस्त्रिंशः सर्गः दत्त्वा तु सीतया सह ततो गृहीते प्रेष्याभ्यामशोभेताम् तदायुधे मालादामभिरासक्ते सीतया समलङ्कृते ततः प्रासादहर्म्याणि विमानशिखराणि च अभिरुह्यजनः श्रीमानुदासीनोऽव्यलोकयत् नहिरथ्यास्तु शक्यन्ते गन्तम् बहुजना कुलाः आरुह्य तस्मात्प्रासादाद् दीनाः पश्यन्ति राघवम् पदातिं सानुजम् दृष्ट्वा ससीतम् च जनास्तदा ऊचुर्बहुजनावाच शोकोपहत चेतसः यं यान्दमनुयाति स्म चतुरङ्गबलम् महत् तमेकं सीतया साधमनुयात लक्ष्मण से चाको महा नेछतेवा नृत् वचनम धर्मगौरवा न श्रष्टुम भूतराकाशर सीता पश्यजमागता जनारा गोचिता सीताचंदनसे वर्षमुष्णम् च शीतम् च नेष्यत्याशु विवर्णता अद्य नो नन्दशरथः सत्त्वमाविश्य राघवंशोभयन्त्येते षड्गुणाः पुरुषर्षभम् तस्मात्तस्योपघातेन प्रजाः परमपीडिताः औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् पीडया पीडितम् सर्वम् जगदस्य जगत्पतेः मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः मूलम् ह्येष धर्मसारो महाद्युतिः पुष्पम् फलम् च पत्रम् च शाखाश्चास्येतरे जनाः ते लक्ष्मण इव क्षिप्रम् सपत्यः सह येन गच्छति राघवः उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च एकदुःखसुखाराममनुगच्छाम धार्मिकम् समुद्धृतनिधानानि च उपात्तधनधान्यानि हृतसाराणि सर्वशः रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः मोषकैः परिधावद्भिरुद्बिलैरावृतानि च अपेतोदकधूमानि हीनसम्मार्जनानि च प्रलष्टबलिकर्मे ज्यामन्त्रहोमजपानि च दुष्कालेनेव भग्नानि च अस्मत्त्यक्तानि कैकेयीवेश्मानि प्रतिपद्यताम् वनम् नगरमेवास्तु येन गच्छति राघवः अस्माभिश्च परित्यक्तम् पुरम् सम्पद्यताम् वनम् बिलानिदं श्रृणः सर्वे सानोनि मृगपक्षिणः त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहवनान्यपि अस्मत्त्यक्तम् प्रपद्यम् तु सेव्यमानम् त्यजन्तु च तृणमाम् सफलादानाम् देशम् व्यालमृगद्विजम् प्रपद्यताम् हि कैकेयी सपुत्रा सह बान्धवैः राघवेण वयम् सर्वे वने वत्स्यामनिर्वृताः इत्येवम् विविधा वाचो नानाजनसमीरिताः शुश्रावराघवश्रुत्वा न विचक्रेऽस्य मानसम् स तु वेश्म कैलासशिखरप्रभम् अभिचक्रामधर्मात्मा मत्तमातङ्गविक्रमः विनीतवीरपुरुषम् प्रविश्यतु नृपालयम् ददर्शावस्थितम् दीनम् स्वमन्त्रमभिदूरतः प्रतीक्षमाणोऽभिजनम् ददार्तमनार्तरूपः प्रहसन्निवाथ जगाम रामः पितरम् दिदृक्षः तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम् यदिष्ठत प्रेक्ष्य तदा सुमन्त्रम् पितुर्महात्मा प्रतिहारणार्थम् पितुर्निदेशेन तु धर्मवत्स लोवन प्रवेशे कृतबुद्धिनिश्चयः स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदयस्वागमनम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः